श्रीमत् परमहंस पदयु राजकाचार्य वर्या पद स्थापनाचार्या व्याख्यान सिंहासनाधीश्वरा सकल निगमागमसारहृदया साङ्ख्य त्रय प्रतिपादका वैदिक मार्ग प्रवर्तका सर्वतन्त्र स्वतन्त्रा आदिराजधानी विद्यानगर महाराजधानी कर्णाटक सिंहासन प्रतिष्ठापनाचार्या श्रीमद्राधिराजगुरु भूमण्डलाचार्य ऋष्यशृङ्गपुरवराधीश्वर तुभद्रातीरवासे श्रीमद्विद्याशङ्करपाद पद्माराधका श्रीमज्जगद्गुरु श्रीमदभिनव विद्यातीर्थमहास्वामि गुरु। विद्या गुरुकर कमल सञ्जाता श्रीमज्जगद्गुरु श्री श्रीभारतीर्थमहास्वामिना कमल सञ्जाता श्रीमज्जगद्गुरो श्री श्रीविधुशेखर भारती महास्वामिनाम् च चरणारविन्दयोः साष्टाङ्गप्रणामान् समर्पयामः